श्रीमद्भागवत् महापुराणं दशमस्कन्धम् अति षट्षष्टितमोऽध्यायः पौण्ड्रक् और् काशीराज का उद्धार शेषु कुवाच नन्दव्रजं गते वासुदेवो भगवान् उत्तीर्णो जगत्पतिः इति प्रस्तोभितो बालैर्मे न आत्मानमच्युतम् दूतम् च प्राहिणोन्मन्दः कृष्णाया व्यक्तमर्त्मने द्वारिकायाम् यथा बालो नृपो कृतो बुध दूतस्तु द्वारकामेत्य सभायामस्थितम् प्रभुम् कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् वासुदेवोऽवतीर्णोऽहम् एक एव न चापरः भूतानाम् अनु कम्पार्थं तं तु मिथ्याभिधां त्यज यानि तमस्मन् चिह्वाणीं मौढ्याद्विभर्षि त्यक्तैः मां त्वं शरणं नो चेद्देहि ममाहवम् शिशु उवाच कत्थनं तदुपाकर्णपौण्ड्रकस्याल्पमेधसः उग्रसेनादियसभ्या उच्चकये जहसुस्तदा उवाचदूतं भगवान् परिहास कृथामनो उस्रक्षे मूढचिह्नानि यस्त्वमेवं मुखं तदपि धायाज्ञकङ्कगृध्रवटै वृतः शैष्यसेहतस्तत्र भविता शरणं शूनाम् इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरत कृष्णोऽपि रथमास्थाय काशीमुपजगामः पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथ अक्षोहिणीभ्यां संयुक्तो निश्चक्रामपुरा दृतं तस्य काशीपतिर्मित्रं पाणिनिग्राहोऽन्वया नृपम् अक्षोहिणीभिस्ते श्रिभिम् अपश्यद्पौण्ड्रकुम्भरी शङ्खाय सिगदासार्गश्रीवसाद्युपलक्षितं बिभ्राणं कोस्तु भणिं वनमाला विभूषितम् कौसीयवासशीपीतेवसानं गरुणध्वजम् अमूल्यमौल्याभरणं सुरन्मकरकुण्डलं दृष्ट्वा तमात्मनस्तुल्यवेषं कृत्रिमममास्थितं यथा नटं रङ्गगतं विजहासभृशं हरिः स्थूलैर्गदाभिपरिघै सक्तृष्टि प्रासतोमरै तसिभि पट्टिशैर्वाणी प्राहरन्नयो हरिं कृष्णस्तुतं तत्पौण्ड्रक काशिराजयोर्बलं गजस्यन्दनवाजिपत्तिमत गदासिचक्रेषुभिराजयद्भृशं यथा युगान्ते हुतभुक्पृथक्प्रजाः आयोधनं तद्रथवाजिकुञ्जरद्विपत्खरोटैद्रैणावखण्डितैः विभौ चितं मोदवहं मनस्विनाम् अक्रीडनम् भूतपतेरिवोल्बणम् अथाह पौण्ड्रकम् सौरभिर्भोर्भो पौण्ड्रकि यद्भवान् दूतवाक्येन मामाहूतान्यस्त्राण्यो सृजामि ते तज त्याजेष्येऽभिधानम्बे यद्वैयाज्ञमृसाधुतं प्रजामि शरणं तेद्य यदि नेक्षामि